अगुंसुश्च क्षमे मे रश्विः रश्विश्च क्षमे मे दाभ्यः अदा आभ्यश्च चमे मेधिपतिः अधिपतिश्च अधिपतिरित्यधिपतिः चमे म उपागुंसुः उपागुंसुश्च उपागुंसुरित्युप अगुंसुः चमे मेऽन्तर्यामः अन्तर्यामश्च अन्तर्याम इत्यन्तः यामः चमे म ऐन्द्रवायवः ऐन्द्रवायवश्च ऐन्द्रवायव वा इत्यहीन्द्र वायवः चमे मे मैत्रावरुणः मैत्रावरुणश्च मैत्रावरुण इति मैत्रा वरुणः चमे माऽश्विनः आश्विनश्च चमे मे प्रतिप्रस्थानः प्रतिप्रस्थानश्च प्रतिप्रस्थान इति प्रति प्रस्थानः समे मे शुक्रः शुक्रश्च समे मे मन्थी मन्थी च समे माग्रयणः आग्रयणश्च समे मे वैष्वदेवः वैश्वदेवश्च वैष्वदेव इति वैश्वदेवः समे मे ध्रुवः भ्रुवश्च चमे ए मे वैश्वानरः वैश्वानरश्च समे म रुतुग्रहाः ऋतुग्रहाश्च ऋतुग्रहा इत्युतो ग्रहाः चमे ए मेऽतिग्राह्याः अतिग्राह्याश्च अति ग्राह्या इत्यति ग्राह्या आह चमे मा ऐन्द्राग्नः ऐन्द्राग्नश्च ऐन्द्राग्न इत्यहीन्द्र अग्नः चमे मे वैष्वदेवः वैश्वदेवश्च वैश्वदेव इति वैश्व देवः मे मरुद्वतीया आह मरुद्वतीया आश्च क्षमे मे माहेन्द्रः माहेन्द्रश्च माहेन्द्र इति माहा इन्द्रः क्षमे मा आदित्यश्च क्षमे मे सावित्रः सावित्रश्च मे सारस्वतः सारस्वतश्च चमे मे पौष्णः पौष्णश्च चमे मे पात्नीवतः पात्नीवतश्च पात्नीवत इति पात्नीवतः चमे मे हारियोजनः पारियोजनश्च रियोजन इति हारी योजनः समे हा मा इतिमे अगुं मे अगुंसुश्च समे मे रश्मिः